महात सभापर्व दूतपर्व दुर्योधन सतापे दिवंचाशत्तम अध्याय दुर्योधन उवाच दाया तो विविध तस्म शृणु यज्ञार्थं गद यज्ञा राज महानस मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीं ये ते कीचकवेणूनां छायां रम्यामुपासते खसायेकासना ह्यर्हा प्रदरा दीर्घवेणवः पारदाश्चकुलिन्दाश्च तङ्गणाः परतङ्गणाः तद्वै पिपीलिकं नाम उद्धृतं यत् पिपीलिकैः जातरूपं द्रोणमेयमहर्षुः पुञ्जशो नृपाः कृष्णाल्ललामांश्च मराञ्छुक्लांश्चान्यान् छशिप्रभान् हिमवत् पुष्पजं चैव स्वादुक्षौद्रं तथा बहु उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः उत्तरादपि कैलासादोषधीः सुमहाबलाः पर्वतीया स्थिताः अजातशत्रोर्नृपतेर्द्वारितिष्ठन्ति वारिताः ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः कारुषे च समुद्रान्ते लौहित्यमभितश्च ये फलमूलाशनाये च किराताश्चर्म वाससः क्रूरशस्त्राः क्रूरकृतस्तांश्च पश्याम्यहं प्रभो चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च चर्मरत्नसुवर्णानां गन्धानां चैवराशयः कैरातकीनामयुतं दासीनां च विषापते आहृत रमणीयाथन्दूर मृगपक्षिण निचित पर्वतेभ्यिण्यम भूरिवर्चस बलिचा द्वारि कैरातादरदा दर्वा शूरा वै यमकस्तथा औदुम्बरा दुर्विभागाः पारदा वाल्लिकैः सह काश्मीराश्च कुमाराश्च हंसकायनाः शिबित्रिगर्तयौधेया राजन्या भद्रकेकयाह अम्बष्टाः कौकुरास्तार्क्ष्या वस्त्रपाः पल्हवैः सह वशातलाश्च मौलेयाः सह क्षुद्रकमालवैः शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशाम्पते अङ्गा वङ्गाश्च पुण्ड्राश्च शाणवत्या गयास्तथा सुजातयः श्रेणिमन्तः श्रेयांशः शस्त्रधारिणः अहर्षः क्षत्रिया वित्तं शतशोजातशत्रवे कलिंगा कलिङ्गामगधास्ताम्रलिप्ताः सपुण्ड्रकाः दौर्वालिकासागरकाः पत्रोर्णाः शैशवस्तथा कर्णप्रावरणाश्चैव बहवस्तत्र भारत तत्रस्थाद्वारपालैस्ते प्रोच्यन्ते राजशासनात कृतकालाः सुबलयस्ततोद्वारमवाप्स्यथ ईशादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान् शैलाभान् काम्यकं सरह दत्वैकैको दशशतान् कुञ्जरान् कवचावृतान् क्षमावन्तः कुलीनाश्च द्वारेण प्राविशंस्तदा एते चान्ये च चा बहवो गणादिभ्य समागताः अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः राजा चित्ररथो नाम गन्धर्वो वासवानुगह शतानि चत्वार्यददधयानां वातरंहसां तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् आम्रपत्रसवर्णानामददाद्धेममालिनाम्